अथ त्रयोदशः सर्गः ऋष्यमूकात् स धर्मात्मा किष्किन्धाम् लक्ष्मणाग्रजः जगामसः सुग्रीवो वालिविक्रमपालिताम् समुद्यम्य महच्चापम् रामः काञ्चनभूषितम् शरांश्चादित्यसङ्काशान् गृहीत्वारणसाधकान् अग्रतस्तु ययो राघवस्य महात्मनः सुग्रीवः सम्भतग्रीवो लक्ष्मणश्च महाबलः पृष्ठतो हनुमान् वीरो नलो नीलश्च वीर्यवान् तारश्चैव महातेजा हरियूथप यूथपः ते, ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः प्रसन्नाम्बुवहाश्चैव सरितः कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा शिखराणि च मुख्याणि धरीश्च प्रियदर्शनाः वैदूर्य विमलैस्तोयैः पद्मैश्चाकोशकुड्मलैः शोभितान् स जलान् मार्गे तटाकांश्चावलोकयन् कारण्डैः सारसैर्हंसैर्भञ्जुलैर्जलकुक्कुटैः चक्रवाकैस्तथा चान्यै मृदुशुष्पान्कुराहारान् निर्भयान् वनगोचरान् चरतः सर्वतः पश्यन् स्थलीषु हरिणान् स्थितान् तटाकवैरिणश्चापि शुक्लदन्त विभूषितान् घोरानेखचरान् वन्यान् विरदान् कूलघातिनः मत्तान् गिरितटोत्कृष्टान् पर्वतानिव वानरान् विरद प्रख्यान् वणे वणचरांश्चान्यान् खे च रांश्च विहङ्गमान् पश्यन्तः त्वरिता जग्मुः सुग्रीववशवर्तिनः तेषाम् तु गच्छताम् तत्र त्वरितम् दृष्ट्वा रामः एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते मेघसङ्घातविपुलः पर्यन्तकदलीवृतः किमेतज्ज्ञातुमिच्छामि सखे कौतूहलम् मम कौतूहलापनयनम् कर्तुमिच्छाम्यहम् त्वया तस्य तद्वचनम् श्रुत्वा राघवस्य महात्मनः गच्छन्नेवाच चक्षेथसुग्रीवस्तन्महद्वनम् एतद्राघवविस्तीर्णमाश्रमम् श्रमनाशनम् उद्यानवनसम्पन्नम् स्वादुमूलफलोदकम् अत्र सप्त जनानाममुनयः संशित व्रताः सप्तैवासन्नद्ध शीर्षा नियतम् जलशायिनः सप्त रात्रे कृताहारा वायुनाचलवासिनः दिवम् वर्षशतैर्याताः सप्तभिः सकलेवराः तेषामेतत्प्रभावेण द्रुम प्राकारसंवृतम् आश्रमम् सुदुराधर्षमपि सेन्द्रैः सुरासुरैः पक्षिणो वर्जयन्ते तत् तथा न्येवनचारिणः विशन्ति मोहाद्येऽप्यत्र न ते पुनः विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः तूर्यगीतस्वनश्चापि गन्धो दिव्यश्च राघवा त्रेताग्नयोऽपि दीप्त्यम् ते धूमो ह्येष प्रदृश्यते वेष्टयन्निव वृक्षाग्रान् घनः एते वृक्षाः प्रकाशंते धूमसंसक्तमस्तकाः मेघजालप्रतिच्छन्ना वैदूर्यगिरयो यथा कुरु प्रणामम् धर्मात्मम्स्तेषामुद्दिश्य राघवा लक्ष्मणेन सह भ्रात्रा प्रयतः संहताञ्जलिः प्रणमन्ति हि एतेषा ऋषीणाम् भावितात्मना न तेषामशुभम् किञ्चित् शरीरे राम ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः समुद्दिश्य महात्मानस्तादृशेन अभ्यवादयत् अभिवाद्य च धर्मात्मा भ्राता च लक्ष्मणः सुग्रीवो वानराश्चैव जग्मः संहृष्टमानसाः ते गत्वा दूरमध्वानम् तस्मात् दृशस्ताम् दुराधर्षाम् किष्किम् धाम् बालिपालिताम् तस्तु रामानुज रामवानराः प्रगृह्य शस्त्राण्युजितोऽग्रतेजसः पुरीम् सुरेशात्मज वीर्यपालिताम् वधाय शत्रोः पुनरागता स्त्रिहा इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धकाण्डे त्रयोदशः